वैशंपायन उवाच एवन्तु तु ब्रुवतस्तस्य मैत्रेयस्य विशाम्पते ऊरूम् गजकराकारम् करेणाभिजघानसः दुर्योधनस्मितम् कृत्वा चरणेनोल्लिखन्महीम् न किञ्चिदुक्त्वा दुर्योधास्तस्थो किञ्चिदवाङ्मुखः तमशुश्रूषमाणन्तु विलिखन्तम् वसुन्धराम् दृष्ट्वा दुर्योधनम् राजन् मैत्रेयम् कोपाविशत् सकोपवचमापन्नो मैत्रेयो मुनिसत्तमः विधिना सम्प्रणुदितः शापायास्य मनो दधे ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः मैत्रेयो धार्तराष्ट्रम् तमसपद्दुष्टचेतसम् यस्मात्त्वम् मामनादृत्य नेमाम् वाचम् चिकीर्षसि तस्मादस्याभिमानस्य सत्यः फलमवाप्नुहि त्वदभित्रोह संयुक्तम् युद्धमुत्पत्स्यते महत् तत्र भीमो बली इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः प्रसादयामासमुनिम् नैतदेवम् भवेदिति मैत्रेय उवाच शमम् यास्यति चेत्पुत्रस्तवराजन् यदा तदा श्यापो न भविता तात विपरीते भविष्यति वैशम्पायन उवाच विलक्षयन्स्तु राजेन्द्रो दुर्योधनपिता तदा मैत्रेयं प्राह किर्मीरः कथम् भीमेन पातितः मैत्रेय उवाच नाहं वक्ष्यामि ते भूयो न ते सुतः एष ते विदुरः सर्वमाख्यास्यति गते मयि वैशम्पायन उवाच इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतं किर्मीलवध संविघ्नो बहिर्दुर्योधनो ययौ इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि मैत्रेयशापे दशमोऽध्यायः